आदधे ग्रावास्य धनकृद्देव य सौमगुं सुषुतं मधुमन्तं पयस्वन्तं वृष्टिभनिमिन्द्रा गत्वा वृत्रघ इन्द्रा गत्वा वृत्रतुल इन्द्रा गत्वा हिमादिन्द्रा गत्वा दित्यपथ इन्द्रा गत्वा विश्वदेव जावदे स्वात्रास्थवृत्रतुरो राजो रिक्षयते नास्मै यजमानायो राजा गृधि धात्रे वोचोधिषणे वेडो सति वेडज छामोर्जन् दधा छापोर्जम् मेधा वागम् हिगम् यत्ते सोमादाभ्यन्ना भजाग्रभितस्मै ते सोम सोमाद चस्पत देववस्व वाचिन्मृषा विष्णो पुंशुभ्याङ्गभस्ति भूतो देवो देवाना पवित्रमसि येषाम् भागोऽसिभ्यस्त्वा स्वाङ्कृतो मधुमतेषस्कृति विश्वेभ्यस्तेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टोर्वन्तरिक्षमन्महि स्वाहा त्वा सुभवसो ऋग देवेभ्य स्वारीचिवेभ्यः देश देयोः प्राणायत्वात् राम गृहे तस्यन्तर्यच्छ मघवन् पाहि सोम मनुष्य राग समिषो यदस्वान्तस्ते दधामि द्यावापृथिवी अन्तर्वन्तरिक्षगुम् सजोषा देवैरवरैः परेश्चान्तर्जामे मघवन्मादय स्वस्वाङ्गुमतेन्द्र विषस्कृति विश्वेभ्यस्तेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्वाष्टोर्वन्तरिक्षमन्विः भवय देवेभ्यस्त्वारिचिभ्येषायत्वा आवायो घोषशुचिप उपनःसहस्रम् ते निगितो विश्ववाद उपोते अन्धो मध्यमयामि यस्य देवदधिषे पोर्भपेयम् उपजाम गृहे जो वायभेत्येन्द्रवायो इमे सुताः उभप्रजोभिरागतमिन्दवो वा मुशन्तिः उपयामगृहे दोषेन्द्रवालुभ्याः द्वेषतेजोनिः सजोषाभ्याम् त्वा अयम् वा मित्रावरुणा सुतः सोपरितावृथा मे दिह श्रुतकुम्भवम् उपयामगृहे दोष या वाङ्कषामधुमत्यस्मिना सोङ्कृतापी तया यज्ञम् विमिक्षतम् उपजाम गृहेतोऽस्य स्मिभ्याः द्वेषतेजो धर्माद्भ्येभ्याम् त्वा प्रातरिचौ विमुच्ये अजम्बेनश्चोदयत्प्रश्निगर्भाजो यज्जलाजो रजसोऽभिमाने इममपाकम् सङ्गमे सोऽजस्य सि शुम्न विप्रामतिभेरिहन्ति उपजाम गृहेतोऽसि षण्डा यत्पैषते यो पाहि पूर्वथा विश्वेमथा श्रेष्ठता जम्बरहिषतगम् सुवर्मितम् प्रतीचीनम् भृजनम् दोहसे गजासुञ्जगन्धमनुजा सुवर्धसे उपजाम गृहेऽतोऽसि मर्काय त्वैषते यो देवादिव्यकादशस्थ पृथिविजामध्य एकादशस्थाप्सुकादशस्थ दे देवायज्ञमं जुषग्धमुपदामगृहेतोऽस्याग्रहणोऽसि स्वाग्रहणोभिसवना पाहि विष्णु ंसत्रयश्च गणिनो रुजन्तो निवगम् रुद्रास्पृशिवेञ्च सचन्ते एकादशासो अप्सृषदः सुतगुम् सोमम् विषन्ताकुंसवनादि विश्वे गृहेतोऽस्याग्रगणोऽसि स्वाग्रगणो चिन्वदज्ञम् चिन्वदज्ञपतिमभिषवना बाहि विष्णु स्वाम्बान्वम्बाहेशतेजोर्विश्वेभ्यस्त्वा भजामगृहेऽतोऽसेन्द्रायत्वा बृहद्वदेवयस्वदमुक्तायुवैरजम् दृहद्वरस्तस्मै श्वा विष्णवे वैषदैलो नरेन्द्राजत्वायुवे मोर्धानम् दिवो अलजम् पृथिव्या वैश्वानरमृदायजातमग्निम् कविगो सम्राजमलञ्जनानामासन्नापात्रञ्जनयम् ददेवाः उपयामगृहेदोऽस्यग्नरे त्वा वैश्वानराजध्रुवोऽसि ध्रुवक्षिद्ध्रुवाणाम् ध्रुवनमोऽच्छुतानामक्षुभक्षित्तमदेशतेजोनिरग्नरे त्त्वा वैश्वानराज मधुश्च माधवश्च शुक्रश्च शुचश्च नभश्च नभस्यश्चेषश्चोर्धश्च सहश्चास्यश्च तपश्च तपस्यश्चोपयामगृहेदोऽसि शगुम् सर्पोऽस्य गुम्हस्पत्यायत्वा न्द्रा आगतकं सुतङ्गेऽर्थम् अस्य पादम् सिवेषिता उपनामगृहेतोऽसेन्द्राग्निभ्याः द्वेषतेजोनिरिन्द्राग्निभ्याः न्त्वा ओमासस्य ऋषणे धृतो विश्वे देवास आगता दास्वापुंस दासुषः उभयामगृहे उबादे। दोसि विस्मेभ्यस्त्वा देवेभ्यदेशतेजोढर्विष्मेभ्यस्त्वा देवेभ्यः मरुत्वम् तम् ऋषभम् वा मृधानमगवारिन् दिव्यजगुम् शासमिन्द्रम् विश्वासाहमवसे नोदना योऽग्रगुम् सहोदामि हतगम् हुमेम उपयामगृहे दोसीन्द्रा गत्वा इन्द्रमरुत्वलिह पाहि सौ मेङस्तुतस्य तव प्रणीते तव षोदशम् मन्ना विभासन्ति कमलस्तुज्ञाः उपजामगृहे दोषेन्द्रागत्वा मरुत्वदेषो निरिन्द्रागत्वा मरुत्वते मरुत्वागुम् इन्द्रमृहभोरणाल्यपिभासो मम आसीन् च स्व च छदेव मद्भोर्म्यन्वगम् राजासि प्रतिमस्तुतानाः उपजामगृहेतोऽन्द्राजत्वा मरुत्पतदेश तेजो निरीन्द्राजत्वा मरुत्पदे महागुम् इन्द्रो यपोजसा पर्जन्यो वृष्टिमागुम् इव सोमैर्वत्सस्य वावृधे उपजामगृहेतोऽसि महेन्द्रायत्वैष तेजो निर्महेन्द्राजत्वा मदागम् इन्द्रोदादर्षमिप्रातद्विपर्हानः सहोभिः पृथः सुकृतः कर्तृभिग्भूर उपजामगृहे नसि महेन्द्रागत्वैष तेजो नर्महेन्द्रागत्वा कदाचनस्तरे नेन्द्रसश्च सिधासुषे उपोपेन्मघवन्भो जगिन्व ते देवस्य पृच्छते उपजामगृहेतोस्यादित्येभ्यस्त्वा कदाचन प्रयच्छस्विफे निपासजन्मनि तुलेदादित्यसवनम् दयम्पमितम् दिवि यज्ञो देवानाम् वृत्ते च सन्नमादित्या सौ भवताम् यन्तः आवोर्वाचे समजर्ववृत्त्याम्भोश्चिद्यावलिभो वित्तरासत् ेषमवेधस्तेन मन्दस्वतेन तृप्त्य द्रप्या तृत्यास्वते वयम् दर्पदिवारो दिव्यामिष्टिस्तजामि वाममध्यसमितर्वाममुष्व दिवे दिवे वाममस्मभ्यगुंसामि वामस्य हिक्षयस्य देवघोरे रजा धजा वामभाजस्यामरामगृहेतोऽसि देवागत्वा समित्रे अदद्धेभिः सवितः पादुभिष्पगुम् शिवेभिरद्य परिपाहि नोगयम् हिरण्यजह्वस्तु वितायनम् जसे रक्षामा ब्रह्मो अघुम् सरी सदा वरामगृहेतोऽसि देवागत्वा सवित्रे हिरण्यपाणिभौतदे समितारमुपह्वये स चेत्ता देवतापदम् वरामगृहेतोऽसि देवागत्वा सुषङ्वास सुप्रतिष्ठानो बृहदृशेन मदेश तेजो निर्मिष्मेभ्यस्त्वा देवेभ्यः बृहस्पतिसुदस्य द इन्दो इन्द्रियावतः पत्नी बन्धम् ग्रहम् र्य जनो हर्यदा वज्रस्य भक्तादस्क देदेव स मेष्टकजुषस्तुतस्तोमस्य शस्तोच्छस्य हरिमन्तम् ग्रहम् गृह्णामि हरे स्थ हर्यर्धानासहसौ भाविन्द्राय स्वाहायोगम् शिपवसः सुबोर्जमिषञ्जनः आरेबाधस्व दुच्छुनाः उपरामगृहेतोऽस्यग्नदेत्वा तेजस्वत धेषतेजो निरग्नदेत्वा तेजस्वते उत्तिष्ठन्नोजसा सह भीत्वा शुप्रे अमेपजः सोममण्डसमोऽसुतम् उपरामगृहेदोऽसीन्द्रायत्वौ जस्वत धेषतेजो निरिन्द्राजत्वौजस्वते हरणिर्विश्वतरिषतो ज्योतिष्कृतशिसूर्य विश्वमाभासिरोचनम् उपरामगृहेतोऽसि सोरुजायत्वाभ्याजस्वतरे चेदो निःसौरुजायत्वाभ्याजस्वते आप्याजस्वरिन्दमसामविश्वाभिरोचिभिः भवानः स प्रथस्तमः ये युष्टेजे पूर्वररामपश्यन् युच्छन्ते बुशसम्मत्या सह अस्माभिरोनप्रतिजक्ष्या भूतो तेजम् ज्योतिष्मतेन् वा सादयामि द्यो दुष्कृतम् वा सादयामि द्यो धर्मितम् वा साधयामि भास्मतेन् भया सा रस्वाहासा रस्वाहा वियासा रस्वाहा सञ्झासा रस्वाहोसा रस्वाहायासा रस्वाहाजय स्वाहा शोकादस्वाहाप्यत्वये स्वाहा दपदे स्वाहा ब्रह्महत्याजे स्वाहा सर्वस्मै चित्तकम् सन्तानेन भवै जज्ञा रुद्रन्दनिम् नाम सुपतिज्ञष्ठोरहृदयेन हृदयेन रुद्रम् लोहितेन सर्वम् मतस्नाभ्याम् महादेवमन्तः पाः स्वेन वसिष्ठः नकम् शृङ्गे निकोश्याभ्याम् आदिष्ठवृत्रहं रसंयुक्ता ते ब्रह्मणा हरिः प्रवाचेन पुंसुते मनाग्रावागुणादमग्मुना उपजामगृहे दोषेन्द्रादत्त्वाशोडशन देशदेजो निरिन्द्रादत्त्वाशोडशिने किन्द्रमिद्धले वहत च मानुषाणाम् उपजामगृहे दोषेन्द्रादत्वाषोडशिन देश तेजो निरिन्द्रादत्त्वाषोडशिने ृणग्म् सोजन्नरश्मिभिः मुखदामगृहे दोषेन्द्राजत्पाशोडशिरथेशेजोडुन्द्राजत्पाशोडशिने सर्वस्य प्रतिशेव देभूमिस्वोपस्थादिता स्यो नास्मे सुखदाभवस्मे शर्मसप्रथाः उपजामगृहे दोषेन्द्राजत्वाशो रशिन देश तेजो निरिन्द्राजत्वाषो रशिने महागुञिन्द्रो वज्रवाहष्ोडशे सम्मयच्छतु स्वस्ति नामखवाकरो दहन्तपात्मानिर्योस्मान्वेष्टे उपजामगृहे दोषेन्द्राजत्वाषो रशिन देश तेजो निरिन्द्राजत्वाषो रशिने सदोषायम् रसगुणामरुद्भिः सोमम् पिबवृत् लहन्सोरविद्वान् जहिषध्रोगम् अपमृथोऽनुधस्वाच्छाफम् गृणिः विश्वतो नः उपजामगृहे दोषेङ्गाजद्वाषोडशिन देश तेजोलिङ्गा गद्वाषोडशिने उदुत्यम् जातवेदसन्देपम् वहन्ति केतवः दृशे विश्वाय सूर्यम् चित्रम् देवानामुदगादने कञ्चक्षर्मित्रस्य वरुणस्याग्नेः माप्राज्यावापृथिवे अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्च आग्नेनगशुभाराले अस्मान् विश्वानि देववजुनानि विद्वान् योध्यस्मद्युः राण मे न दिवम् गत्सुवः पदरूपेण वो रूपमध्ये मिलयसावयः तुसो वो विश्ववेदा विभजतु परिषिष्ठे अधिनाकेः अग्ने राधाय जसौ मत्सुतन् मेत्रस्य पथा न गतस्य पथा प्रेत तन्द्रदक्षिणा यज्ञस्य पथा सुविता नैदृमत्यगुं सुधातु दक्षिणम् विशः पशल्यन्तरे क्षल्यत स्वैरस्मद्दाता रमापि सदा न वहायास्मान् कृताम् लोके सेदन्नः सग्रस्कृतम् धाता राजस्स भितेदम् दुषन्ताम् प्रजापजन्धिपजर्णो अग्निः अष्टा विष्णुः प्रचदासगम् नराणो यजमाना यन्द्रविणन्दधातो समिन्द्रणो मनसा नेशगोऽभिः सगम् संरम्भणा देवकतङ्गदस्ति सम् देवानागुम् सुमत्या युजाना संवर्चसापय सासन्तनोभिरगन्महिमनसासकम् शिवेन त्वष्टा नोह्रपरिवक्ृणो त्वनुपाष्टतनुभोगद्व्यनिष्टम् यदद्यत्वा प्रगतिभिग्ने अस्मिन्नग्नेयहोदा नमवृणे महेह युधगजाताशमिष्ठाप्रजानि यज्ञमुपजाहि विद्वान् देवासनमकर्मया जग्मसव नेदम् दुषाणाः दक्षिवाकम् सः स्प्रतिपाकम् सश्च विश्वेऽस्मे धत्तवसभो वसूनि जानावहवसतो देवदेवान् तान् प्रेरयस्मे अग्ने सधस्थे वह मा गाभरमाणाहवेकम् शिवसम् घर्मम् दिवमातिष्ठता नो यज्ञयज्ञम् गच्छ यज्ञपतिम् गच्छस्वा योगिम् गच्छस्वाहैषदे यज्ञो यज्ञपदे सहसो गवागस्तुमेरस्वाहा देवा गातुमिदो गातुम् वित्त्वा गातुमिदमनसस्वन्नो देवदेवे स्वाहा वाचस्वाहा वाते स्वाः गुरुबं हिराजा वरुणश्च कालसौर्यायबन्धामन्वे तबाउ अवदेधा दवे करुतापभक्ता हृदजा विधश्चित् शतम् दे राजम् भिरदः सहस्रमुर्वीगम्भीरासुमधिष्ठे अस्तु बाधस्वद्वेषो निरलजम्बराजेः कृतम् छितेनः प्रमुग्धस्मत् अभिष्ठितो वरुणस्य पाशोऽग्नेरनेकमप प्रतिलक्षन्न सृजन् दमे दमे समिधम् लक्ष्यज्ञे प्रतिदेति आधितमुच्चरण्येत् समुद्रेते हृदयमप्सन्तः दे सन्वापि सन्तोषधे रुतापो यज्ञस्यत्वा यज्ञपदे क्तभावाके नमोभागेमावभृषनिचङ्चुरसनिचङ्वदेवैर्भेर्मध्यकृतमुरोनो देवरशस्पाहि सुमित्रा नोषधजः सन्तु दुर्मित्रास्तस्मै भूयासोऽस्मान्वेष्टिज भजम् विष्णो ध्यावीरावस्तम्भस्तु प्रेतकम् सुभृतमकर्म देवेषु नः सुकृतोऽधात् प्रतिजितो वरुणस्य पाशः वरुणस्य पाशजेथो ग्रेथेमहि समितसि तेजो मविधे ह्यपो अन्वचारिषकुं रसेन समसृक्ष्महे वजदस्वागुम् अग्न आगमन्तम् भासकम् सृजवर्चसा यस्त्वा हृदा गेरुषामन्यमानो मध्यम् मध्योजो जातवे दोजसो अस्मासुखे धेः प्रजाभिरग्ने अमृतत्तमस्या यस्मै त्वकम् सुकृते जातवे तव लोकमग्ने गृणवस्योनम् अश्विनघम् स तंगो भैरवम् तम् गोमन्तकुम् रजिम् न सते स्वस्ति त्वे सुपुत्र स बुक्थमुक्थे स महिन्द्रम् ममादनीचे नीचे, नीचे, नीचे कानगम् सुतासह यदेकम् सबाधः पिनरन्नपुत्राः समानदक्षा अवसे हवन्ते नाग्ने रसेन तेजसा जातवेदो विरोचसे रक्षोहा मे अपो अन्बचारिषगुम् रसेन समसृक्ष्महि पयस्वागम् अग्न आगमम् तम् मासगुम् वसुवसुवधिले कमस्यग्ने विधा वसुः श्यामते सुमतामपि त्वामग्ने वसुपतिम् वसो नामभिप्रमन्दे अध्वरेषु राजन् त्वया वाचम् वाचलम् दोजने माभिश्यामवत्सुतेर्मद्याना त्वामग्ने वाचसा तमम् विप्रावर्धम् तम च अयम् नो अग्निर्वलिवस्तृणो त्वजम् लृथः पुरजयतु प्रभिन्नन् शत्रूञ्जयदजल सुषाढोऽयम् वाचम् जयतु वाजसाधौ अग्निनाग्निः समिध्यते कविगृहवतिर्विवा श्रव्यवाजुक्त्वास्यः त्वग्निह्यग्ने अग्निना विप्रो विप्रणसान् सा सखा सख्या समिध्यसे पुनः ज्ञास च